मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं फोर्टि एय्ट् शुक्रशिष्य सुबोधसंवादम् श्रीगणेशाय नमः श्रीशुक उवाच सोङ्गारवेदमुख्यानां वचनं हितकारकं श्रुत्वा जहृषिरेनागादयसर्षिगणासुराः त्यक्त्वा स्वस्वमतं सर्वे तान् प्रणम्य प्रपूज्य वै ओङ्कारादीन् महाभागा ऊचुः प्राञ्चलयो वचः देवादय ऊचुः ओङ्कारसहिता वेदा भवद्भिः कथितं वचः तदेव सर्वमान्यं वै ब्रह्मभूयप्रदं भवेद सर्वेषां गुरवः प्रोक्ता वेदास्थैः कथितं भवेद तदेव करणीयं यद्गदिदं सर्वसम्मतं वेदास्धारविहीनं यत् त्याज्यं सर्वैर्न संशयः नो भूत्वा यातनां लभते नरः ब्रह्मयज्ञस्य पारं वै भवन्तो देवनायकैः मुनिभिर्जनसङ्खैश्च गदा देवादयो महाभागा एवमुक्त्वा विशेषतः प्रह्लादतुष्टुवुर्वेदमुख्यां स्ते हर्षसंयुताः पूजितास्तैरुक्तवेदाः सोङ्कारा दैत्यनायक अन्धर्दधुस्ततः सर्वे हृष्टास्तानं ययुस्वकं ये येवं सर्वैः पुरा साधो ब्रह्मयज्ञकृतो भवत तेन संशयहीनास्ते भजन्ते गणनायकम् ये दत्ते कथितं पूर्णयोगशान्तिप्रदं परं सर्वमान्यं विशेषेण भजतं गणनायकं सुबोध उवाच यवमुक्त्वा महायोगी शुकश्चान्दर्हितो भवद प्रह्लादो भक्रि संयुक्तो भजते गणनायकं संश्रुतं माधुरुदरसंस्थेन सकलं ततः मया धृतं विशेषेण तदेवं योगदायकम् पूर्वपुण्यबलेनैव स्मृतिर्मेत्र प्रसंस्थिता जनितोऽहमदो विप्रा भजामि गणनायकम् एतत् सर्वं मया प्रोक्तं यत्पृष्ठं गुरुमुख्यपाः अदो मे मोहदां विद्याम्मा वदेद दयायुधाः श्रीकृष्ण उवाच सुबोधस्य वच श्रुत्वा ब्राह्मणा हर्षसंयुताः ऊचुस्तं योगनिपुणं भावज्ञा भावसिद्धये विप्रावूजुः सुबोधयत्वया प्रोक्तम् तत्तद्धान तदन्यथा धा, तथापि शृणु वत्सत्वं हितकारकमुत्तमं महाभाग महाभागदुर्बुद्धिस्ते महासुरः गणेशेन हतो रोषादेवपक्षप्रधारिणा तं द्वेष्टिगणराज्यं च पिता ते पितृद्रुहं ततस्त्वं तं त्यज विघ्नेशमादराद नो चेत्त्वां ते पिता पुत्रहनिष्यदिनसंशयः तस्मादाग्रहमत्यन्तम् मा कुरुष्व महामदे असुराणां कुले पश्य जनिस्तव स्वकुलस्तस्य मार्गस्य सेवनम् कुरु सर्वदा तेषाम् वचनमाकर्ण्य सुबोधो रक्तलोचनः जगाद तान् द्विजांस्तत्र वचनम् धर्मसंयुधम् सुबोध उवाच सर्वत्र योगरूपेण गणेशस्तिष्ठदिद्विजाः स्वस्वधर्मनियन्तासौ नाना क्रीडा क्रीडापरायणः स्वर्गे देवा नरा पृथिव्यां पादाले तेन दैत्यपाह स्थापिता स्व स्वमार्गेषु स्थातव्यं तैर्हि देप्सुभिः पितामहश्च मे विप्रा त्रिलोही राज्यमुत्कटं चकारधर्महीनः हदो बलाद, पिता मेऽपि तथा विप्राधर्महीनतया स्थितः तं हनिष्यति वेगेन गणेशो na नात्र संशयः अध किं गणराजेन विपरीतं कृतं द्विगाः स्वधर्मस्य प्रियेणैव मां वदेत विशेषतः सर्वेषां हितकर्ता सौ विघ्नराजो न संशयः तं भजिष्यामि यत्नेन त्यक्त्वा स्वपितरं कलं गणेशं भजमानं मां वधिष्यदि यदा कलः तदेव मरणं श्रेष्ठं ब्रह्म प्रदं भवेद। मशके कुपिते किं वै गृहं त्यक्त्वा मनीषिणः तिष्ठन्ति ब्राह्मणा सर्वे मां वदेद हि साम्प्रतं। बुद्धेः पदेर्गणेशस्य सत्ता सर्वत्र वर्तते सिद्धेः पदेर्न सन्देह किं करिष्यति मां पिता स्वधर्म सर्वभूतानां धर्मकामार्थमुक्तये ब्रह्मभूयार्थमत्यन्तं गणेशभजनात्मकः तं तादृशं स्वधर्मं किं त्यक्त्वा विषयनं पडः भविष्याम्यसुराधीनो ब्राह्मणाः कुलपांसवः न ब्राह्मणा भवन्तोऽपि विषयेषु परायणाः त्यक्त्वा धर्मं स्थिता अत्र दैत्याधीनान् संशयः गणेशभजने भूय ब्रह्मभूयपरायणाः ब्राह्मणास्ते मदा शास्त्रे मां वदद बालिशाः श्रीकृष्ण उवाच शुक्रशिष्यान् प्रजानाथ एवमुक्त्वा महामतिः सुबोधो गणनाथस्य भजने तत्परो भवद नमो गणेशाय नमो महात्मने नमः परेशाय परात्पराय ते अनादिमध्यान्तमयाय ढुण्ढये नमो नमो विघ्नपदे सुशान्तिद एवं विपदमानं तं ज्ञात्वा काव्यस्य शिष्यकाः भयभीताविशेषेण ज्ञानाय ते ययुः प्रभो ॐ तत्सदि श्रीमदाे पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते शुक्रशिष्य सुबोधसंवादो नामाष्ट चत्वारिंशोऽध्यायः ओ